हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्री अध्यात्मरामायणे अयोध्याखण्डे द्वितीय श्री श्रीमहादेव उवाच अथ राजा दशरथ कदाचिद् स्थित वसिष्ठम् सकुलाचार्यम् आहूय इदम् अभाषत भगवन् राममखिलाः प्रशंसन्ति मुहुर्मुहुः पौराश्च निगमा वृद्धा मन्त्रिणश्च विशेषतः ततः सर्व गुणोपेतम् रामम् राजीव लोचनम् ज्येष्ठम् राज्ये भिक्षेमि विषेक्ष्यामि वृद्धोऽहं मुनिपुङ्गव भरतो मातुरम् द्रष्टुं गतशत्रुघ्नसंयुतः अभिषेक्षेष्वैवाशु भवान् तश्चानुमोदताम् सम्भारा सम्भ्रियन्तां च गच्छ मन्त्रय राघवम् उच्छ्रीयन्ताम् पदाकाश नानावर्णासमन्ततः तोरणानि विचित्राणि स्वर्णमुक्तामयानि च आहूय मन्त्रिणं राजा सुमन्त्रम् मन्त्रिसत्तमम् अज्ञापयति यद्यताम् मुनैः तत्तत्समानय यौवराज्ये भिक्ष्यामि स्वभूते रघुनन्दनम् तथेतिहास्यार्थमुनिम् किं करोमित्यभाषत तम् उवाच महातेजा वसिष्ठानिनाम्बरः शप्रवाते मध्यकक्षे कन्यका स्वर्णभूषिता तिष्ठन्तु षोडश स्वर्णरत्नादिभूषितः चतुर्दन्तः समायातु ऐरावत कुलोद्भवः नानातीर्थोदके पूर्णा स्वर्णकुम्भा सहस्रज स्थाप्यन्तान् नव वैयाघ्र चर्माणि त्रीणि चानय श्वेतच्छत्रम् रत्नदण्डम् मुक्ता मणि विराजितम् दिव्यमालानिवस्त्राणि दिव्यान्याभरणानि च मुनय सत्कृतास्तत्र तिष्ठन्तु कुशपाणयः नर्तक्यो वार्मुख्या च गायका कुशला वादयन्तु नृपाङ्गणे हत्यश्वर सपादाता सायुधा नगरे यानि देवतायतनानि च तेषु प्रवर्ततां पूजा नानावलिभिरादृता राजा न शीघ्रमायन्तु नानोपाय न पाणयः इत्यादिश्च मुनिश्रीमान् सुमन्त्रं नृपमन्त्रिणं स्वयं जगाम भवनं राघवस्यातिशोभनं रथमारुह्य भगवान् वसिष्ठो मुनिसत्तमः त्रीणि कक्षाणि अतिक्रम्य रसात् स्खीतिं वातरत् अन्तः प्रविश्य भवनम् स्वाचार्यत्वाद्वारितः गुरुमागतमान्याय राम तूर्णम् कृताञ्जलिः नमस्कृत्य दण्डवद् भक्तिसंयुतः स्वर्णपात्रेण पानीयम् आनिनी याशुजानकी रत्नासुरे सभाव पादो प्रक्षाल्य भक्तितः तदपय शीर्षा धृत्वा सीतया सह राघव धन्योस्मि यत् इति अब्रवीत् राम तव पादाम्बुदाहरणात् श्रीरामेणैव मुक्तस्तु प्रसन्मुनिरब्रवीत् सलिलं धृत्वा धन्यो भूद्गिरीजा पतिः ब्रह्माभि मत्पिता तेः पादतीर्थ हताशुभ इदानीं भाषते यत् तम् लोकानामुपदेशकरो जानामि त्वां परात्मानं लक्ष्म्या सञ्जातमीश्वरम् भक्तानां भक्ति रावणस्य वधार्थाय जानामि राघवे तथापि देवकार्यार्थं गुह्यं नोद्घाटयाम्यहम् यथा सर्वं करोषि रघुनन्दन तथैव नो विधास्यहं शिष्यस्थं गुरुरप्यहम् गुरुर्गुरूणां तं देव पितॄणां तं पितामह अन्तर्यामि जगद्यात्रा वाहक स्तम्भ गोचरः शुद्ध सप्तमयम् देहम् धृत्वा स्वाधीन सम्भवम् मनुष्य एवल केऽस्मिन् भाषे तम् योगमाय य पौरोहित्यम् अहम् जाने विगर्ह्यम् दुष्यजीवनम् इक्ष्वाकोणाम् कुले रामः परमात्मा जनिष्यते इति ज्ञातम् पूर्वम् ब्रह्मणाय कथितं ततोहम ततोऽहमाशय राम तव सम्बन्धकाङ्क्षया अकाश्यं गृहीतमपि तवाचार्य त्वसिद्धये ततो, ततो मनोरथो मेद्य फलितो रघुनन्दन त्वदधीना महामाया सर्वलोकैकमोहिनी मां यथा मोहयन्नैव तथा कुरू रघुद्वः गुरु निष्कृतिकामर्थम् यदि देहे तदेव मे प्रसङ्गात् नवाच्यं न वाच्यम् कुत्रचिन्मया राज्ञा दशरथेनाहम् प्रेषितोऽस्मि रघुद्वः त्वम् वामन्त्रयितुं तुम्राज्ये कोऽभिषिक्षेति राघव अद्य त्वं उपवासं यथाविधि कृत्वा शुचिर्भूमिशायी भव राम जितेन्द्रियः गच्छामि राजसान्निध्यम् कन्तु प्रातः गमिष्यति इत्युक्त्वार्थमारुह्य ययोराज गुरुर्ध्रुतम् रामोऽपि लक्ष्मणम् दृष्ट्वा प्रसन्दिदमब्रवीत् सौमित्रै यौवराज्ये मे शोभिषेको भविष्यति निमित्तमात्रम् एवम् कर्ता भोक्ता त्वमेव हि मम त्वं हि बहि प्राणो नात्र कार्याविचारण ततो वसिष्ठेन यथा भाषितं तत्तथाकरोत् वसिष्ठोऽपि नृपं गत्वा कृतं सर्वं न्यवेदयत् वसिष्ठस्य पुरो राज्ञा युक्तं रामाभिषेचनं यदा तदैव नगरे कृत्वा कश्चित् कौसल्यायै राममात्रे सुमित्रायै तथैव च श्रुत्वा ते हर्ष सम्पूर्णे दशसु हरमुत्तमम् तस्मै तथैव कौसल्या पुत्रवत्तला लक्ष्मीं पद्य चलद्देवीं रामस्यार्थ प्रसिद्धये सत्यवादी दशरथ करोत्येव प्रतिश्रुतम् कैकै वशकः किन्तु कुख किं करिष्यति इति व्याकुलचित् तासा दुर्गां देवीम् अपूजयत् एतस्मिन् अन्तरे देवा देवीं वाणिम् अचोदयन् गच्छ देवी भो लोकम् अयोध्यायां प्रयत्नतः रामाभिषेकविघ्नार्थं यतः स मन्थरां प्रविचस्वादो स्वारो कैकेयीं ततो विघ्ने समुत्पन्ने पुनरेहि दिवं शुभे तथेत्युक्त्वा ततः चक्रे प्रविवेशाथमन्दरां सापि कुब्जा त्रिवक्त्रा तु प्रासादाग्रम् नगरं परितो दृष्ट्वा सर्वतः समलङ्कृतं नाना तोरणसंवादम् पदाकाभि अलङ्कृतं सर्वोत्सव समायुक्तम् विस्मिता पुनरागमयत् दात्रीं पच्छमातकिं नगरं समलङ्कृतं नानोत्सव समायुक्ता कौसल्या चातिहर्चिता ददात्री विप्रमुखेभ्यो वस्त्राणि विविधानि च तमुवाच तदा ददात्री रामचन्द्राभिषेचनम् श्वो भविष्यति तेनाद्य सर्वतोलङ्कृतम् पुरम् तत् श्रुत्वा त्वरितम् गत्वा कैकेयीम् वाक्यम् अब्रवीत् पर्यङ्कस्थाम् विचाराक्षिम् एकान्ते पर्यवस्थिताम् किं शेषे दुर्भगे मूढे महद्भयम् उपस्थितम् न जानीषेन्ति सुन्दर्य वाणिनिः मत्तगामिनिः रामस्यानुग्रा द्राज्ञ्य कोऽभिषेको भविष्यति तच्छ्रुत्वा सोत्थाय कैकेयी कै प्रियवादिनी सस्य दिव्यम् दधो स्वर्ण नो पूरम् रत्नभूषितम् हर्षस्थाने किमिति मे कथ्यते वयमागतम् भर्ता दधिको राम प्रियकुम्बे प्रियं सदा शुश्रूषते तव मूढे वदस्वमे तछ्रुवा विश साजाण वैरिणी वचन देवी यथार्थं ते मह तोषय सदा प्रियवाकते कामको तथ्यवादी चम वाचा कार्यं करोति तस्या वै राम मातुस्तु पुष्कलम् मनस्येतन्निधायैव प्रेषयामास ते सुतं भरतं मातुलकुले प्रेषयामास सानुजम् सुमित्राया समीचीनं भविष्यतिन न संशयः लक्ष्मणो राममन्वेति राजं सो नु भविष्यति भरतो राघवस्याग्रे किङ्गरो वा भविष्यति विवास्यते वा निगरात् प्राणिर्वाहाप्यते चिरात् तन्तु दासीव कौसल्यां नित्यं परिचरिष्यसि ततोपि मरणं श्रेयुः यत्सपत्त्या पराभवे अत शीघ्रं यदस्वाद्य भरतस्याभिषेचने रामस्य वनवासार्थं वर्षाणि नव ततो रूढल भये पुत्र तव राज्ञी भविष्यति उपायं ते प्रवक्ष्यामि पूर्वमेव सुनिश्चितम् पुरा देवासुरे युद्धे राजा दशरथ स्वयम् इन्द्रेण याचितो धन्वी सहायार्थ महारथ जगामृषीनया सार्धं त्रया सह शुभानने युद्धं प्रकुर्वतस्तस्य राक्षसे स धन्विनः तदाक्षकीलो नस्य हस्तम् समावेश्यन्ध्रेति धैर्यतः स्थितवती सितापाङ्गी पतिप्राणे परीप्सय ततो हत्वा सुरान् सर्वान् ददर्शे त्वाम् अरिन्दमह आश्चर्यं परमं लेभे त्वालिङ्ग्य मुदान्वितः वृणीष्व यत्ते मनसि वाञ्छितं वरदोऽस्म्यहम् वरद्वयं वृणीक्षत्तम् एवं राजावधत्रयं प्रयोक्तो वरदो राजन् यदि दत्तं वरद्वयं तय्येव तिष्ठतु चिरम् न्यासभूतं मम यदा मे अवसरो तदा देहि वरद्वयम् तथेत्युक्त्वा स्वयम् राजा मन्दिरम् व्रजसु व्रते तत्तश्रुतम् मया पूर्वम् इदानीम् स्मृतिमागतम् अथ शीघ्रम् प्रविशाद्य क्रोधागारमुच्य सर्वाभरणम् सर्वतो विनिकीर्य च भौमौ एव शयानाथम् तूष्णिम् वा तिष्ठभामिनी राजा भीष्टम कौती ते सुतीविव्रोक्त सदा कैकय नन्दि तथ्य अखिलंब मे ने दुस्सा विभ्रम तेक से न जाने वक्र सुंदरी भर तो यदि राज भविष्य सुत प्रिय शतं प्रदास्यामि मम त्वं प्राणवल्लभ इत्युक्त्वा कोपभवनम् प्रविश्य स सारुषा विमोच सर्वाभरणम् परिकीर्य समन्ततः भो मोषयाना मलिना मलिनाम्बरधारिणी प्रोवाच शृणु मे कुब्जे यावद्रामो वनं व्रजेत् प्राणान् त्यक्षेऽथवा शायिष्ये तावदेव हि कुरु कल्याणी कल्याणं ते भविष्यति इत्युक्त्वा प्रदेयो कृपि तथा करोत् धीरोऽत्यन्तदयान्वितोऽपि स गुणाचारान्वितो वा अथवा नीतिन्यो विधिवा देशिकपरो विद्याविवेकोऽथवा दुष्टानाम् अतिपापभावित धियाम् सङ्गं च तद्बुद्ध्या परिभावितो व्रजति तत् साम्यं क्रमेण स्फुटम् अतः सङ्गः परित्याज्यो दुष्टानां सर्वदैव दुःसङ्गी च वते स्वार्थात् यथेयं राजकन्य इति श्रीमदध्यात्मरामायणे मामेश्वरसंवादे अयोध्याकाण्डे द्वितीय सर्गः